भागवत महापुराण सप्तम स्कंध अथाष्टमध्याय नृसिह भगवान का प्रादुर्भाव हिण्य कश्यपू का वध एव ब्रह्मादिदेवताओं द्वारा भगवान की स्तुति नारद्वाद अथ दैत्यसुता सर्व्वा तनुवर्णित जागृहोर्निर्वत्वान्नैव कुर्वन्नुशिक्षितम् अथाचार्यासुतस्तेषां बुद्धिमेकान्तसंस्थिताम् आलक्ष्यभीतस्त्वरितो राज्ञ आवेदयद्यथा श्रुत्वा तदपि प्रियं दैत्यो दुःसहं तनि आनयं कोपावेशचलद्गात्रः पुत्रं हन्तुं क्षिब् परुशियावाच प्रह्लादमतदर्हणम् आहे क्षमाणः पापेन तिरश्चिनेन चक्षुषां रश्रयावनतं दान्तं बद्धाञ्जलिमुपस्थितं सर्पपदाहतैव श्वसनं प्रकृतिदारुणः हेतुर्विनीत मन्दात्मन्दात्मन् कुलभेदकराधमः दब्धं मच्छासनोद्धूतं देशे त्वाध्यायमख्ययं क्रुद्धस्य कम्पन्ते त्रयो लोकामहिंसहेश्वराः तस्य मे भीतमन्मूढशासनं किलम्बलोद्यगाः प्रह्लादुवाच न केवलं मे भवतस्य राजं स वैवलं बलिनां चापरेषां वरे वशं प्रणीताः स ईश्वर कालगुरुक्रमो सा पूजः सह सत्त्वबलेन्द्रियात्मा स एव विश्वं परमस्वशक्तिभिः सृजत्यवत्यर्तिगुणत्रयेषः जय्यासुरं भावमिवं तमात्मनः समं मनो धस्वन सन्ति विद्विषः ऋतेजितादात्मनम् दस्यन्पुरा षण्ण विजित्यलं पतो मन्यन्त एके रुजितादिसौ दश जितात्मनो ज्ञस्य समस्य देहिनां साधु समूहप्रभवः कुतो कुतः परेणकसुबुवाच व्यग्ं तम्भर्तुकामोऽषी ज्योतिमात्रं विगधते मुमर्षूणां हिमन्दात्मन्ननुविप्लवागिरः यस्त्वया मन्दभाग्योक्तो मन्दन्मदन्यो जगदीश्वरः वासौ यदुष सर्वत्र कस्मात् स्तम्भेन दृश्यते सोऽहं विकथमाहरस्य शिरः कायाद्धरामि ते गोपायेत हरित्वाद्य सरणमिप्सितम् एवं दुरुक्तये मुहुरन्धयन्द्रुसा सुतं महाभागवतं महासुरः खड्गं प्रगृह्योत्पतितो वरासना स्तम्भं तता ढाति बलसुमुष्टिनां तदैव तस्मिन् निनदोति भीषणो बभूवये लाण्डकटाहमस्फुटं य वै स्वधीष्णो भगतं त्वदा त्वजादय श्रुत्वा सधामाप्ययमङ्गमे निरे स विक्रमन् अपूर्वमद्भुतम् अन्तःसभायां न ददर्श तत्पदं वितत्त्वसूर्येण सुरार्यूथपाः सत्यं विधातुं निजभृत्य भाषितं व्याप्तिं च भूते स्व किलेषु चात्मनः अदिश्यतात्यद्भुतं रूपं मुद्महन् स्तम्भे सभायां न मृगं न मानुषम् सत्त्वमेनं परितोऽपि पश्यन् स्तम्भस्य मध्यादनुर्जिहानम् नायं मृगो नापि नरो विचिद्रमहो किमेतन्मृगेन्द्ररूपं मीमांसमानस्य समर्थितो ग्रतो नृसिंहरूपस्तं भयानकं प्रतप्तचापि करचण्डलोचं लोचनं स्फुरतटाके सर्जिम्भिताननं करालदृष्टं करभालचञ्चलं चुरान्तजीवं मृगुटीमुखोल्बणम् तं भों निःस्तब्धोऽर्भुकर्णं गिरिकन्दराद्भुतं ध्याताश नासं अनुभेदभीषणं दिविश्वसत्कायम् अधीर्घं पीवरं ग्रीवोर्वक्षसनमल्पमभ्युगमं चन्द्रांशुगौरैं छुरितं तनूरुहै विस्वग्भुजातीं भुजा नीकर्षतं नखायुधं दुरासदं तर्वनिजेतरायुध प्रायेण मेयं हरिणोरुमायिनापथः स्मितोनेन समुद्यतेन किम् एवं ब्रह्मस्लभ्यपतङ्गधायुधो नदन्न सिंहं प्रतिदेत्यकुञ्जरः अलक्षितोग्नौ पतितः पतङ्गभूयथा न सिंहौ जशीर्षो सुरस्तं न तद्विचित्रं खलु सद्वधामणिः त्वं तदुभिपां पद्याभ्य हनन्महासुरोषा न शिङ्गं गदयोरुपे गयां तं विक्रमन्तं च गधं गदासरो महोरगन्ता च सुतो यथा गृहीत स तस्य हस्तो कलित दधासुरो विक्रीडितो यद्वद्वं हिघरुत्म गरुत्मतः असाध्वमन्यन्त हृतौकसोमरां झनज्झदा भारत सर्वतिष्णपाः तं मन्यभालो निज वीर्यशङ्कितं जधस्तमुक्तों निहरिं महासुरः पुनस्तमासज्जतं खड्गचर्मणि प्रविज्य वेगेन चितश्रमो मृधे तंसेनवेगं ततचन्द्रवर्तमिभिं चरन्त्रमध्येद्रमुपंमुपर्यधो हरिः कृत्वाट्टहासं खर्मस्त्वनोल्बणं निमीलिताचं जगृहे महाजभः निष्वक्पुरन्तं गृहणातुरं हरिर्व्यालो यथा कुं कुलीं साक्षि तद्वचं द्वायुर्यपातारलीलयानकै यथाहिं गरुणो महाविषं संरब्धदुष्प्रेक्ष कराललोचनो व्याताननान्तं बलीन् हंसजीर्भयाम् असेलभाक्तारुणकेतरानलों यथात्रमाली नखां कुरुद्भाटितं हि सरोरुरुहं विसृज्य तस्यानुचरानुधायुधार अहं समन्तान्नखं सहस्रपार्श्वं दोर्दण्डयूथोनुपथान्सहस्रशः तटावधूतां जलदापरापतं ग्रहास तद्रेष्टिमुष्टरोषितः अम्भोदय स्वासहतां विचुक्षुः द्योस्ततटो क्षिब्दाभिमानसङ्कुलां ब्रूसर्पदग्मा च पदातिपीडितां शैलासमुद्भेतुरमुच्यरङ्घसां तद्धेजसाकं ककुभूनरे चिरे ततः सभाजाम्बुपविष्टमुद्दमे निपासने संवृततेजसं विभुम् अलक्षितध्वैरथं मन्थम् अद्य मर्षणं प्रचण्डभक्त्रं नभभाज कश्चन दशम्यलोकत्रयं मस्तकज्वरं समाधिदैत्यं हरिणाहतं मृदे प्रहसवेगों कलितारनामुहु प्रसूरवृतेसूसुरत्रियः तदाभिमानावलिं भिन्नमस्तलं दिदेक्षतां शङ्कुलमासनाकिनां सुरानकाधुन्दुपयोथं जग्निरे गन्धर्वमुख्यानन्दतुर्जगो श्रिया तत्रोपव्रज्य विबुधा महेन्द्रगिरिशादयः द्वितीयः पितरः सिद्धा विद्याधरमहोरगाः मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः यक्षा किं पुरुषास्तातवेतालां सिद्धकिन्नराः ते विष्णुपार्षदा सर्वे सुनन्दकुमुदादयः मूर्धे बद्धाञ्जलिपूटा आसीनं तिवृतेजशम् ईडिरे नरसार्दूलं नातिदूरः चरा पृथक् ब्रह्मोवाच नतो स्मनन्ताय दुरन्तशक्तैरुचित्तविर्याय पवित्रकर्मणे विश्वस्य सर्गस्थिते सह्यमान्गुणैः स्वलीलया सन्ददते व्ययात्मरे श्रीरुद्रुवाच कोपकालो युगान्तस्ते हतोऽयं नसुरोऽल्पकः तत्सुतं पाहोपसितं भक्तं ते भक्तवत्सल इन्द्रुवाच प्रत्यानीता परं भवतां त्रायतानसभागां देत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि कालग्रस्तं यतीतं महोनाथशुश्रूषतां ते मुक्तिर्तेषां न हि बहुमतां नारसिंहापरैकीम् द्विषुः तं नस्तपहं परमाथजदात्मतेजो येदमादिपुरुषात्मगतं ससर्ज तद्भ्यप्रलुप्तं मौनाद्य शरण्यपाल रक्षा गृहीतवपुषा पुनरन्वन्ताः पितर्वृचुः श्राद्धानि नो दिभुजे प्रथमं तनूजै दत्तानि तिर्समियेऽप्यपि भत्तिलाम्भू तस्योदरान्नपाद्य आर्चत तस्मै नभुं नियं निहरयेऽखिलधर्मगोप्त्रे सिद्धा ऊचुः योनागतिं योगसिद्धाम साधूं अहारसीं योग तपोबलेन नाणातर्पं तं नखैधारं तस्मै तभ्यं प्रणता स्मृशृङ्गविद्याधरा उचुः विद्यां पृथग्धारिण्यानुराद्धां न सीथिदज्ञो बलवीर्यतृप्तः सायेन सङ्ख्ये पशुबद्धसस्तं मायानुशङ्खं प्रणतास्म नित्यं नागा ऊचुः येन पापेन रत्नानि श्रीरत्नानि हृतारिणः ततं तद्वक्षपाटनिदाशां दत्तानन्दनमोऽसुते मनो ऊचुः मनवो वयं तौ निदेशकारिणों द्वितीयजेन देव परिभूतसे भवता खलः स उपसंहितः प्रभो कर्वामते किमनुसारि किं किङ्कराण प्रजापते उचुः प्रजेशा वयं ते परे सा विशेषा येन प्रजा वै सृजामो निषिद्धाः सा ये स वयं विभूते नटनाट्यगायका येनात्मसाद्रर्यबौजसा कृताः स ये स नीतो भवतादसाभिमां किं पुन्पतस्थं कुशलाय कल्पते चारणावृचुः हरे तवा कृपङ्कजं वयमनुचरमुख्याः कर्मभिस्ते वनोज्ञै स इह दितिसुतेन प्रापिता वाहकत्वं स जन पंच तु जनपरितापं तद्गृतं जानता ते नरहरुपनीतः पञ्चतां पञ्चविंश किं पुरुषा ऊचुः वयं किं पुरुषास्त्वं तु महापुरुष ईश्वर अयं कुपुरुषो नष्टोऽधिक्कृतः साधुभिर्यदा सभासशत्रे स तवा मलं यतो गृत्वा सपर्यां महतीं लभाभे यस्तां विनयशीन्वितमेतदुर्जनो दृष्टा हतस्ते भगवान्यथाभय किन्नरावचुः वयमी स किन्नरगणां तवानुगामदितीजेन वेष्टि ममुनून्नानुकारिता भवता हरे स विजतोपसादितो नृसिंहनाथ विभुवाय नो भव विष्णुपार्षदावचुः अद्यैतद्धरी नररूपमद्भुतं ते दृष्टं न शरणदन्तर्वलोकशर्म सोयं ते विधिकरैशां दिप्रसप्तं तस्येतं दिधनमनुग्रहाय विद्मः इति श्रीमद्भागवती महाप्राणे पारुभ्यां सीतायां सप्तमस्सन्दे प्रह्लादानुचरिं देतराजपथेन सिंहस्तवो नामाष्टमोऽध्यायः